नारायणीयं दशगम 87 मीटर मीटर् वंशस्थं कुचेलनामा भवतः स दीर्थ्यतां गदस मन्दिरे द्विजः त्वदेकरागेण धनादिनिःस्पृहो दिनानि निन्ये प्रशमी गृहाश्रमी सामनशीला तदीय वल्लभा समेयुषी कदाचिदूचे बधवृत्तिलब्धे रपधि किं न सखा निषेदी प्रियया क्षुधातया जुगुप्सम धने मदावे तदा त्वदालोकनकौतुकाद्ययौ वहन्पदान्ते पृथुकानुपायनं गदोऽयमाश्चर्यमयीं भवत्पुरीं गृहेषु शैव्याभवनं समे इवान् प्रविश्य वैकुण्ठमिवापनिर्वृदिं तवादिसम्भावनया तु प्रपूजितं तम् प्रिययाजविजिदम् करे गृहीत्वा कथय पुराकृतम् यदिन्धनार्थम् गुरुदारचोदितैरपर्तुवर्षम् तदमर्षिकानने त्रपाजुषोऽस्मात् पृथुकम् बला दधप्रगृह्यमुष्टौ सकृदाशिदे त्वया कृतं कृतं नन्वियतेदि सम्भ्रमाद्रमा किलोपेत्य करं रुरोधते भक्त्रेषु भक्ते न स मानितस्त्वया पुरीं वसन्ने कनिशां महासुखं बदा परिद्युर्द्रविणं विनाय यौ विचित्ररूपस्तव कल्वनुग्रहः यदि ह्ययाचिष्यमदास्यदच्युतो वदामि भार्यां किमिव्रजन्नः सौ त्वदुक्तिलीलास्मितमग्नदी पुनः क्रमादपश्यन्मणिप्रमालयं किं मार्गविम्भ्रंश इति गृहं प्रविष्टः स ददर्शवल्लभां सखीपरीदां मणि हेमभूषिताम् बुबोधचत्वत्करुणां महाद्भुतां सरत्नशाला सुवसन्नपि स्वयं समुन्नमद्भक्ति भरो मृदं ययौ त्वमेव मापूरितभक्तवाञ्चिदो मरुत्पुराधीश हरस्वमे गदान् सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्दगोविन्द